गरुडपुराणं ब्रह्मकाण्डं मोक्षकाण्डम् अध्यायम् शवन् श्रीकृष्ण उवाच पार्वत्यानन्दरोत्पन्न इन्द्रो वजनमब्रवीद, इन्द्र उवाच तव स्वरूपं कृति संविजानन् समुत्सुकस्यास् तवने यस्तु मूढः अजानतस्तवनं देवदेव तदेवाहुर्हेलनं चक्रपाणे तथापि तद्वैस्तव नाम पूर्वं भवेत्तदा पुण्यकरं भवेदिति रुद्रादिकानां स्तवने नास्ति चक्रिस्तदा वक्तव्यं मम नास्तीति किं वा गुणां सदो दशभिरुद्रदो वै सदा न्यूनो मत्समः ज्ञाने बले समदा सर्वदास्ति तथा कामः किं एवं स्तुत्वा देवदेवो हरिं च तूष्णीं स्थितः प्राञ्जलिर्नम्रभूर्धां तदनन्तरजो ब्रह्मा अहङ्कारिक ऊचिवान् अहङ्कारिक उवाच नमस्ते गणपूर्णाय नमस्ते ज्ञानमूर्तये नमो ज्ञानविदुराय ब्रह्मणे नन्दमूर्तये इन्द्रादहं दशगुणै सर्वदा न्यून उक्तो न जनित्वां सर्वदा ह्यप्रमेय तथापि मां पाहि जगद्गुरोत्वं दत्त्वा दिव्यं ह्यायतनं च विष्णो अहङ्कारिक एवं तु स्तुत्वा तूष्णीं बभूवः तदनन्तरजास्तोदुं वचनमब्रवीद शच्युवाच संचिन्तयामि अनिशं तव पादपद्मं वज्राङ्गुषध्वजसरोरुहलाञ्छनाढ्यं वागीश्वरैरपि सदा मनसाभिधर्तुं नो शक्यमीश अकङ्कारिकप्राणाच्च गुणैश्च दशभिः सदा न्यूनभूतां च मां पाहि कृपालो भक्त्रवत्सलः एवं स्तुत्वा शचीदेवी तूष्णीं भगवदी ह्यभूद तदनन्तरजास्तोदुं हृदि समुपचक्रमे रदिरुवाच संचिन्तयामि नृह्रेर्सं चिन्तयामि नृहरेर् वदनारविन्दं भृत्यानुकम्पितधियाहि गृहीतमूर्तिं यच्छ्रीनिकेदमजरुद्ररमादिकैश्च संलालितं कुडिलकुन्दलवृन्दजुष्टम् एतादृशं तव मुखं नुवितुं न शक्ति शच्यासमापि भगवन्परिपाहि नृत्यं कृत्वा स्तुतिं रदिरीयं परमादरेण तूष्णीं स्थिता भगवतश्च समीप एव रत्यनन्दरजो दक्षस्तोदुं समुपचक्रमे दक्ष उवाच संचिन्तये भगवदश्चरणोदतीर्थम् भक्त्या ह्यजेन परिषिकृतमजादिवन्द्यम् यच्छौ जःसृतमजप्रवरावतारम् गङ्गाख्यतीर्थमभवत्सरिताम् वरिष्ठम् रुद्रोऽपितेन विधृतेन जडाकलापभूतेन पादरजसा ह्यशिव शिवोऽभूद एतादृश्यं ते चरणं करुणेश विष्णो स्तोतुं कृपावतार रत्या समश्रुतिगतो न गतोऽस्मि मोक्षमेतादृश्यं च परिपाहि दिनानमूर्ते एवं स्तुत्वा स दक्षस्तु तूष्णीमेव बभूवः तदनन्तरजस्तोदुं बृहस्पतिरूपाक्रमीद बृहस्पतिरूपा च संचिन्तयामि सतदं तव चाननाब्जं त्वं देहि दुष्टविषयेषु विरक्रमीश यदेषु शक्तिर्यदि वै सजीवो कर्ताज भोक्ताच सदाच च सदा च दादां योषां च पुत्रसुहृदौ च पशुंश्च सर्वमेवं विनश्यति यतो हि तदाशु चिन्ति संसारचक्रभ्रमणेनैव देव संसारदुःखमनु भूयोहागतोऽस्मि शक्तिर्न चास्ति नवने मम देवदेव सत्यासमं च सततं परिपाहि नित्यं एवं श्रुत्वा च परमं तूष्णीमेव स्थितो मुनिः तदनन्तरजस्तोदुं ह्यनिरुद्धोपचक्रमे अनिरुद्ध उवाच एवं हरेस्तव कथां रसिकाम्बिकाय स्त्रीणां भगेज वदने परिमुह्य नित्यं विष्ट्रान्ध्रपूरिदबिले रसिको हि नित्यं स्थायीजसूकरवदेव विमूढबुद्धिः मज्जास्तिपित्तकभरकृतमलादिपूर्णे चर्मान्ध्रवेष्ठितमुखे पदितं कपीतम् आस्वादने मम च पापगदेर्मुरारे मायाबलं तव विभो परमं निमित्तं संसारचक्रे भ्रमतश्च नित्यं सुदुःखरूपे सुकलेशवर्जिते मलं वमन्दं नवभिच्छद्वारैः शरीरमारुह्य सुमूढबुद्धिः नमामि नित्यं तव तत्कथामृदं विहाय देवश्रुतिमूलनाशनं कुटुम्बपोषं च सदा च कुर्वन् दानाद्य कुर्वन्निवसन् गृहे च दूरे जसारमलं द्विधं कुरु देहि ह्यदो दिव्यकथामृतं तदा एतादृशोऽहं तव सद्गुणौकं स्तोतुं समर्थो नास्मि शचीसमश्च एवं स्तुत्वा निरुद्धस्तु तूष्णीमाः स तदनन्तरजस्तोत्रं मनस्वायम्भुवो ब्रवीद स्वायम्भुव उवाच स्तोतुं ह्यनुप्रविशतोऽपि न गर्भदुःखं तस्मादसंभरमपूज्यपदं गदस्ते मनोर्भा्या मानवी च सूर्यश्चक्षुर्नियामकः परस्परसमाख्यते मुक्त्वा संसारमेव च प्रवाहाद्विगुणोन्नश्चेदव्यं जानीहि चाण्डजा सूर्यानन्तरजस्तोदुं वरुणः सम्प्रचक्रमे वरुण उवाच त्वदिच्छया रचिते देहगेहे पुत्रे कलत्रेऽपि धने द्रव्यजादौ ममाहमित्यल्पधियाजमुदा संसारदुःखे विनिमज्जन्ति सर्वे अदोहरे तादृशीं मे कुबुद्धिं विनाश्य मे देहि दे, दे पाददास्यम् असम्मनोपादपदार्थभूतगुणेन हीनः सर्वदा वै मुरारे एवं स्तुत्वा तु वरुणप्राञ्चलिसमुपस्थितः वरुणानन्तरोत्पन्नो नारदो ह्यस्तु वद्धरिं नारद उवाच यन्नामधेयश्रवणानुकीर्तना स्वाद्वन्यतत्त्वं मम नास्ति विष्णो पुह्यतश्चैव परो वरायान्यज्जिह्वाग्रेवरुतदे नाम तस्य यज्जिह्वाग्रे हरिनामैव नास्ति सब्राह्मणो नैव स यगोकरः अहं न जाने तव स्वरूपं न्यूनो ह्यहं वरुणा सर्वदैव येवं स्तुत्वा नारदो वै खगेन्द्रस्तूष मूदे चाग्रे यो नारदानरम संबूव भृगुर्महात् स्ुमुप्रचक्र मे भृगुवाच किसनमे गुड़ासनाय किंभूषण कौस्तुभूषणा लक्ष्मीकलत्राय किमस्ति देयं वागीशकिन्ते वचनीयमस्ति अतो न जाने तव सद्गुणांश्च ह्यं सदा वरुणात्पादहीनः एवं स्तुत्वा हरिं देवम् भृगुस्तूष्णीं बभूवः तदनन्तरजोह्यग्निरस्तावेत्पुरुषोत्तमम् अग्निरुवाच यत्तेजः साकं सुसमिद्धतेज हव्यं वहाम्यध्वरे आज्यसिकृतं यत्तेजः साकं जठरे सम्प्रविश्य पचन्नन्नं सर्वदा पूर्णशक्तिः अदो न जाने तव सद्गुणांश्च भृगोरसं सर्वदैवं नमोऽस्मि तदनन्तरजास्तोदुम् प्रसूतिरुपचक्रमे प्रसूतिरुवाच यन्नामार्थविचारणेऽपि मुनयो मुह्यन्ति वै सर्वदा त्वद्भीदा अभिदेवदा ह्यविरधं स्त्रीभिः मान्धा धृधुवनरदाश्च भृगवो वैवस्वदाध्याखिला प्रेम्णा वै प्रणमाम्यकं हितहृदे तस्मै नमो विष्णवे अदो न जाने तव सद्गुणान् सदा एवं विधा मम शक्तिरस्ति स्तुत्वा ह्येवं प्रसूतिस्तु तूष्णीमासीत् खगेश्वर अग्निर्वागात्मको ब्रह्मपुत्रो भृगुरुषिस्तथा तद्भार्या वै प्रसूदिस्तुत्र येते समास्मृदाः वरुणात्पादहीनाश्च प्रवहा प्रसूत्यनन्तरं जादो वसिष्ठो ब्रह्मनन्दनः विनया वनदो भूत्वा स्तोदुं समुपचक्रमे वसिष्ठ उवाच नमोऽस्तु तस्मै पुरुषाय वेधसे नमो नमो सद्विजिनचिदे नमः नमो नमो स्वाङ्गभवाय नित्यं नदोऽस्मि हेनाथवाङ्घ्रिपङ्कजं मां पाहि नित्यम् भगवन्वासुदेवह्यग्नेरसं सर्वदा नून एव सर्वदा किञ्चिदूनस्तुत्वा देव सो भवत्तत्र तूष्णीं यो वसिष्ठानन्दरजो मरीचिर्ब्रह्मनन्दनः हरिन्दुष्टावपरयाभक्रिया गुरुं मरीचिरुवाच देवेन हदतिर्भवनप्रसङ्गुभोपगमनाद्विमुखेन्द्रियश्च पूर्वे च नित्यं सुखलेश लवादिना त्वद्दूरं मनस्त्वशुभकर्म समाचरिष्ये एतादृशोकं भगवानन्दः सदवशिष्टस्य समान एवं स्तुतो मरीचिस्तु तूष्णीमाश्र तदाखग तदतन्दरजोह्यत्रिरस्तावीत्प्राज्जलिर्सरिम् आविर्भवज्जगत्प्रभावायावतीर्णम् तद्रक्षणार्थमनवद्यञ्च तथा व्ययाय तत्त्वार्थमूलमविकारितवस्वरूपम् ह्यानन्दसारमदयैव विकारशून्यं त्रैगुण्यशून्यमखिलेषु च संविभक्तं तत्र प्रविश्य भगवन्न हि पश्यतीव अदो मुरारेस्तव सद्गुणांश्च मरीचितुल्यः एवं स्तुत्वा तदाखग तदनन्तरजस्तोतुमङ्गिरा वाक्यमब्रवीद अङ्गिरा उवाच द्रष्टुं न शक्नोमि तव स्वरूपम् ह्यनन्दबाहूदरमस्तकम् च अनन्तसाहस्र किरीडजुष्टं महार्सनाभरणैश्च शोभितम् एतादृश्यं रूपमनन्तपारं स्तोतुं ह्यशकस्तु नमोऽस्ति चात्रे एवं स्तुत्वा ह्यङ्गिराश्च तूष्णीमा स खगेश्वर तदनन्तरजस्तोदुम्बुलस्त्योवाक्यमब्रवीद पुलस्त्य उवाच यो वा फरिस्तु भगवान् स उपासकानाम् सं दर्शयेद् भुवनमङ्गलमङ्गलं च यस्मै नमो भगवदे पुरुषाय तुभ्यं यो वा विदा निरयभागगमप्रसङ्गे एतादृशां स्तव गुणान्न विदुं न शक्तं मां पाहि भगवन् सदृशो ह्यङ्गिरसा एवं स्तुत्वा पुलस्त्योऽपि तूष्णीमेव बभूवः तदनन्तरजस्तोतुं पुलहो वाक्यमब्रवीद पुलः उवाच निष्कामरूपरिहितस्य समर्पितं च स्नानावरोत्तमपह्यफलपुष्पभोज्यम् आराधनं भगवदस्तव व्यर्थं भवेदिति वदन्ति दि महानुभवाः तस्मै सदा भगवते प्रणमामि नित्यं निष्कामया तव समर्पणमात्रबुद्ध्या वैकुण्डनाथ भगवन्स्तवनेन शक्रिसोऽहं पुलस्त्य सदृशोऽस्मि न संशयोत्र एवं स्तुत्वा कुलहस्तूष्णीमाः स तदाखग तदनन्तरजस्तोतुं क्रदुःसमुपचक्रमे क्रदुरुवाच प्राणप्रयाणसमये भगवंस्तवैव नामानि संसृतिजदुःखविनाशकानि येनैकजन्मशमलं सह सैव हित्वा संव्याधिमुक्तिमलां तमहं प्रपद्ये ये भक्रिया विवशा विष्णो नाम मात्रैकजर्पकाः ते विमुक्तिं प्रयान्त्याशु किमुदध्यायिनः सदा एवं स्तुत्वा क्रतुरपि तूष्णीमा सखगेश्वर तदनन्तरजस्तो दुम् मनुर्वैवस्वदोऽ ब्रवीद वैवस्वद उवाच सोकं कि कर्मकरणे निरदः सदैव स्त्रीणां भोगे ज निरतश्च बुधे प्रमत्तः जिह्वेन्द्रिये च निरतस्तव दर्शने ज सम्यग्विरागसहितपरमोदरेण मां सास्तिमज्जरुधिरैसहिते जदेहे भक्तिं सदैव भगवन्नभित्तस्करे ज गुर्वग्निबाढभगवादिषु सत्सु दुःखोत् सम्यग्विरक्तिमुपयामि सहस्व नित्यं लोकानुवादश्रवणे परमाजशक्तिर्नारायणस्य नमने न जमेस्ति शक्तिः लोकानुयानकरणे परमाजशक्तिः क्षेत्रादिमार्गगमने परमाह्यशक्तिः वैश्यादिकेषु धनिकेषु पराजशक्तिस्सत् ब्राह्मणेष्वपि न शक्तिरहो मुरारे वैवस्वदमनुर्देवं स्तुत्वा तूष्णीं बभूवः तदनन्तरजस्तोतुं विश्वामित्रोपचक्रमे विश्वामित्र उवाच न ध्यादे चरणाम्बुजे भगवतो संध्या विनानुष्ठित ज्ञानद्वारकपाडपाडनपटुर्धर्मो विनोपार्जितः अन्तर्व्याप्तमलाभितादकरणे पट्वी श्रुदा ते कथा नो देवश्रवणेन पाहि भगवन् मामत्रितुल्यं सदा विश्वामित्रऋषिस्त्वेवं तुत्वा तूष्णीं बभूवः भृगुना रदक्षांश्च विहाय ब्रह्मपुत्रकाः सप्तसङ्ख्यावशिष्टाद्या विश्वामित्रस्तथैव च वैवस्वदमनस्त्वेते परस्परसमास्मृताः वह्नेरप्यवरा नित्यं किञ्चिन्मित्राद्गुणाधिकाः तदनन्तजस्तोत्रं वक्ष्ये शृणुखगेश्वर इति श्रीगारुडे महापुराणे ब्रह्मकाण्डे कृष्णगरुडसंवादे देवादिस्तुति तत्तत्तारतम्यनिरूपणं नाम सप्तमोऽध्यायः ओम् अध्यायम् श्री श्रीगरुडमहापुराणम् एय् क्रतोरनन्तरं जादो मित्रो नामकगेश्वरनारायणं जगद्योनिं स्तों समुपचक्रमे मित्र उवाच नतोऽस्म्यज्ञस्त्वच्चरणारविन्दं भविदं स्वस्त्ययनं भवच्चिदे वेदस्वयं भगवान् वासुदेवो नाहं नाग्निर्नतृदेव मुनीन्द्राः अथा परे भागवतप्रधानाय धानजानीयुरथा परे कुदः मां पाहि नित्यं परतोऽप्यधीश विश्वा मित्रान्यूनये वेदि नित्यम् अहम् पर्जन्यार्द्विगुण एव नित्यमदो मम स्तवने नास्ति शक्रीः खगा तदनन्तरजातारास्तोतुं समुपचक्रमे तारोवाचा अनन्येन दुभावेन भक्तिं कुर्वन्ति ये दृढा स्वजनबान्धवाः त्वदाश्रयां कथां श्रुत्वा शृण्वन्ति कथयन्ति च तथैते साधवो विष्णो सर्वसङ्कविवर्जिताः तन्मध्ये पतितां पाहि सदा मित्रसमां प्रभो तारानन्दरजप्राहनुरृतिश्च खगेश्वर निरृतिरुवाच योगेन त्वय्यर्पितया च भक्रिया संव्याधिलोकाः परमां गतिं च आसेवया सर्वगुणाधिकानां ज्ञानेन ना वैराग्य युतेन देव चित्तस्य निग्रहेणैव विष्णोर्यान्ति परं पदम् अदो मां पाहि दयया सदा तारासमं प्रभो तदनन्तरजास्तोदुं प्रावहि तं प्रचक्रमे प्रवाह्युवच सुधाप्रसङ्गेन भवन्ति वीर्या तव प्रसादात् परमासम्पदश्च या ह्युक्तमश्लोकरसायनाः कथास्तत्सेवनादास्तु वर्ग त्वपवर्गवद्मनि भक्तिर्भवेत् सर्वदा देवदेव सदाप्यहम् निरृदे साम्यमेव सहर्भाष्यकोमित्र कयी ताजप्रकीर्तिताः कोणाधिपो निरृदिश्च प्रवाहि प्रवहप्रिया चत्वार एते पर्जन्या त्रिगुणा प्रवाहभार्यानन्दरजो विश्वक्सेनोधपर्षदा वायुपुत्रो महाभागः हरिं स्तों व्रजक्रमे विश्वक्सेन उवाच भगवन्मोक्षधकृष्णपूर्णानन्दोत्सदा यदि यदि स्यात् परमभक्तिर्ह्यपरोक्षत्वसाधना तथा स्वगुरुमारभ्य ब्रह्मान्देषु च साधुषु तद्योग्यतानुसारेण भक्तिर्निष्कपडा यदि तुलस्यादिषु जीवेषु यदि स्यात्प्रीतिरण्डजा तदा नाशीभूयादेवनसंशयः एवं स्तुत्वा महाभागो विश्वक्सेनो महाप्रभो तूष्णीं बभूवगरुडप्राञ्चलिर्नम्रकन्धरः मित्रादघं नून एव नात्रकार्या विचारणा इति श्री गारुडे महापुराणे अष्टमोऽध्यायः ओम् अध्यायम् नयन् अजानजस्वरूपं च ब्रूहि कृष्णमहामदे तदन्यांश्चक्रमेणेव वक्तुं कृष्णत्वमर्हसि श्रीकृष्ण उवाच अजानाख्या देवतास्तु तत्तदेव कुले भवाः अजानदेवतास्ताहितेभ्योऽघ्रिया कर्मदेवताः विराधश्चारुदेष्णश्च तथा चित्ररथस्तथा धृतराष्ट्रकिशोरश्च हूहुर्हास्तथैव च विद्याधरश्चोग्रसेनो विश्वावसुपरावसु चित्रसेनश्च गोपालो बल पंच दश स्मृता शख्या अजानज सामे मुक्त संसार वजा। देवा कर्मजेभ्य सदावराताची कृताची मेनकारंभा उर्वशी चतिलोतमा सुखे दुःस्वबरी चैव मञ्जुघोषा च इत्यादिगं यक्षरत्नं सहसम्परिकीर्तिदम् अजानज समाह्यदे कर्मजेभ्यश्च दावराः विश्वामित्रो वसिष्ठश्च नारदश्च्यवनस्तथा उदध्यश्च मुनिश्चैदान्द्रा च पित्वा कवेश्वर ऋषयश्च महात्मानो ह्यजानज जा समास्मृताः शदर्चिकस्य पूज्ञयो मध्यमश्च पराशरः पावमान्यप्रदाधश्च क्षुद्रसूक्तश्च देवलः वृत्समदोह्यासुरिश्च भरद्वाजोधमुद्गलः उद्दालको ह्यर्ष्य शृङ्गः शङ्घस् सत्यव्रतस्तद्धा सुयत्नश्चैव बाभ्रव्यो माण्डूकश्चैव बाष्कलः धर्माचार्यस्तधा दस्त्यो दाल्भ्यो दाढ्यच्युतस्तद्धा कवशो विरूपो मुसलस्तथा विष्णुवृद्धश्च आत्रेय श्रीवत्सो वत्स भार्गवश्चाप्नवानश्च माण्डूकेयस्तथैव च माण्डूकश्चैव mm. जाबश्च जिही वीदिहव्यस्तथैव च गृत्समतः शौनकश्च हरिप्रीणादि सर्वदा ब्रवें सहस्रं चृणुताक्ष्य मग्पुत्रस्त यं च मम स्त्रिय अजानज सख्येद नात्र कार्याचाणुपुत्री कशेरू त मध्ये गुणाधिका तदनन्तरजान्वक्ष्ये शृणु सम्यक् कदेश्वर आजानेभ्यस्तु पितर सप्तभ्योऽन्येषदावराः तथाधिकाहिपिदर द्विजसत्तम अष्टाभ्यो देवगन्धर्व अष्टोत्तरशतं विना तेभ्यः सदगुणानन्दो देव प्रेष्यास्तु मुख्यतः स्वमुखेनैव देवैश्च आज्ञाप्या सर्वदा गुणाः आख्यादादेवगन्धर्वास्तेभ्यस्तेज सदावराः तेभ्यस्तु क्षितिवाज्ञेया अवराश्च सदैर्गुणैः तेभ्यः सदगुणाज्ञेया मानुषेषुत्तमा गणाः एवं प्रासङ्गिकानुकृत्वा प्रकृतं ह्यनुसराम्यहं येवं ब्रह्मादयो देवा लक्ष्म्याद्या अपि स्तुत्वा तूष्णीं स्थिता सर्वे प्राञ्चलीकृत्य भोद्विजा इति स्तुतश्च देवेशो भगवान् हरिरव्ययः तेषामायधनं दातुं मनस्सा समचिन्तयद इदं पवित्रमारोग्यं पा पुण्यं पापप्रणाशनम् हरिप्रसादजनकं स्वरूपसुखसाधनम् इदं दुस्तवनं विप्राणपठन्तीहं मानवाः न शृण्वन्ति च ये सर्वे चैव मायिनः न स्मरन्दोन्तरं नित्यं ये भुञ्जन्ति नराधमाः तैर्भुक्ता सददम्बिष्टा सदा कृमीशदैर्युधा इति श्रीकारूडे महापुराणे ब्रह्मकाण्डे देवकृतविष्णुस्तुतिदेवतारतम्यनिरूपणं नाम नवमोऽध्यायः ओम् अध्यायम् टेन् गरुड उवाच देवैरेवं स्तुतो सात्वदां सात्वदाम्पदिः कीदृशं ह्याश्रयं दत्वैषां विवेश महाप्रभुः यदद्वेदितुमिच्छामि कृष्णकृष्ण महाप्रभो सम्यग् ब्रूहि दयालो त्वं यदि मच्छ्रोत्रमर्हति श्रीकृष्ण उवाच तेषु तत्त्वेषु भगवान् सविवेश महाप्रभुः क्षोभयामास भगवान सम्बन्धविधुरो हरिः अदौ स सर्ज भगवान् ब्रह्माण्डं कनकात्मकं पञ्चाशत्कोटिविस्तीर्णं योजनानां समन्तदः तदूर्ध्वमण्वयवस्थावान् कनकरूपकः वर्तते तद ऊर्ध्वं तु पञ्चाशत् कोटिभूतलम् एवं कोटिशतं तस्यावयवः परिकीर्तिदशा ततश्च सप्तावरणै समता परिधीकृतम् कबन्धावरणं ह्याद्यं कोट्या दशसहस्रकं द्वितीयावरणं ज्ञेयम् पावकस्य महात्मनः अभां दशगुणैर्युक्तं समन्दात् परिधीकृतं तृतीयावरणं ज्ञेयं हरस्यैव महात्मनः दशाधिकं पावका च समन्दात् ज्ञेयं नभसोऽपि महाप्रभो हरा दशगुणैरेवं समन्तात् परिवारितं पञ्चमावरणं ज्ञेयमहङ्काराख्यमेव च व्योम्नो दशगुणैरेवं समन्तात् परिवारितं प्रोक्तं महत्तत्त्वं खगेश्वर अहङ्कारा दशगुणं समन्तात् परिवारिदम् स मावरणं प्रोक्तं त्रिगुणावरणं प्रभो महत्तत्त्वात् दशगुणैरधिकं परिकीर्तितं महत्तत्त्वानन्तरं च तमोह्यावरणं स्मृतं महत्तत्त्वात् पञ्चगुणैरधिकं परिकीर्तितं तस्माच्च द्विगुणं ज्ञेयं रजोह्यावरणं स्मृदम् ततश्च द्विगुणं ज्ञेयं चत्वावरणमुत्तमं त्रयश्चैवं मिलित्वा तु एकावरणमीरितम् अव्याकृताख्यमाकाशं तदनन्तरमीरितं मर्यादारहितश्चैवं तत्रास्ते हरिरव्ययः अष्टमावरणं व्योम् नोरं तरा विरजा नदी पञ्चयोजनविस्तीर्णासमन्दात् परिधीकृता अस्ति पुण्यतमाज्ञेयालोकसंसारनाशिनी एवं च दुर्मुखेनैव तदा हृष्यन्ति चाण्ड च ते सर्वे विरजा नद्यां सम्यक् स्नात्वा विसर्ज्य च लिङ्गदेहं तदपश्चान्मोक्षं विन्दन्ति ते हरेः अपरोक्षदृशामेवं ब्रह्मणा विरजातरणं विधिनान्येषां विदमिनधासुद अपरोक्षदृशां ब्रह्मन्व्यासादीनां विरजातरणं नास्ति भोक्तव्यत्वाच्च कर्मणः विरिञ्चे नैव सागन्तु कल्पेऽस्मिन्नधिकारिणां ां तु नियमेनैव सर्वप्रारब्धसंक्षयः भवत्येवं न सन्देहो नान्येषां सर्वसंक्षयः अधस्तु विरजातरणं तेषामेव भवेत् पडो विरजातरणं नास्ति तेषां तत्सङ्गिनां तथां सर्वारब्धक्षयो नास्ति यतस्तेषाम् कगाधिप अर्धश्च सर्वधा नास्ति प्रभो विलये विरजानद्यालयो नद्यालयो नास्ति कगेश्वर लक्ष्म्यात्मिका तु ब्रह्मत्वयोग्या ऋजवो नाम देवा ते विप्रत्येकश सन्दिह्यनन्ताश्च पृथग् गणाः पृथक् पृथक् च तैः साकं मोक्षयोग्या खगेश्वरा जीवा सन्दिह्यनेके च अष्टाविंशल्लक्षणैश्च गिरीशपदयोगिनः चतुर्विंशतिमारभ्य षोडशा चसुरा स्मृदाः अष्टकार्षय प्रोक्तास्तदूनाश्चक्रवर्धिनः शतजन्मसमारभ्य ब्रह्मणपरमेष्टिनः अपरोक्षमिति प्रोक्तम् तदा ह्यारब्धसंक्षयः एकेन शतकल्पेन वायुत्वम् याधि भोद्विजा शतजन्मनि ब्रह्मत्वम् याधि पश्चाद्धरे पदम् चत्वारिंशद्ब्रह्मकल्पम् समारभ्य खगेश्वर रुद्रस्याप्यापरोक्ष्यम् स्यात् तदा प्रारब्धसंक्षयः एकचत्वारिंशकल्पे शेषत्वं यादि सुव्रद ब्रह्मणा सह मोक्षम् च यादि सम्यग् न जान्यदा कल्पविंशतिमारभ्य ब्रह्मण परमेष्टिनः इन्द्रस्याप्यापरोक्ष्यम् स्यात् तथा प्रारब्धसंक्षयः ब्रह्मणैव सहायादि हरिम् नारायणम् परम् गरुड उवाच पञ्चाशीतिब्रह्मकल्पम् समारभ्य महाप्रभो रुद्रस्याप्यापरोक्ष्यम् स्यात् तथा प्रारब्धसंक्षयः यदि श्रुतं मया ब्रह्मन् ब्रह्मणोक्तम् हरे प्रियाद इद्धम् त्वयोक्तम् श्रीकृष्ण संशयो बाधदे मम अधो मे संशयं चिन्धि यथा न स्यात् तथा पुनः यदि तद्वचनं श्रुत्वा कृष्णो वचनमब्रवीद कृष्ण उवाच ब्रह्मोक्तस्य मयोक्कृतस्य विवादो नास्ति सर्वदा सन्देहस्त्वज्ञदृष्टीनां ज्ञानिनां नास्ति सर्वदा अशीधिह्यष्टता प्रोक्ता अष्टपञ्चखगेश्वर चत्वारिंशद् ब्रह्मकल्प एवं प्राह चतुर्मुखः तत्त्वानां बहु गोप्यत्वात् तथोक्तं ब्रह्मणा पुरा अभिप्रायस्त्ववमेव ज्ञातव्यो पञ्चाशीतिब्रह्मकल्पं ये विजानन्ति भो द्विजतेऽन्धं तमः प्रविशन्ति सत्यं सत्यं मयोदिदं विरजानन्तरं विप्रं तथा व्याघृतमम्बरम् अनन्तपारं तदपि लक्ष्मीस्तस्याभिमानिनी सङ्ख्यानुगणनं नाम यस्य नास्ति महाप्रभो न दानं जातिप्रोक्तं सर्वदा नास्ति संशयः अण्डाभिमानी ब्रह्मादु विराडाख्यो ह्यभूतदा एवं मदं स निर्माय भगवान् हरिह्ययः विशेष तत्र गरुड देवैस्तत्त्वाभिमानिभिः अधश्चोर्ध्वं तदाक्रम्य हरिस्तिष्ठति सर्वदा एवम् प्राकृत सर्गोक्तिर्वैकृतं पक्षिराट गरुड उवाच सृष्टिरुक्दा त्वया पूर्वम् श्रुता सम्यङ्मया हरे किं नाम प्राकृतं ज्ञेयं तथा किं वैकृतं प्रभो यदद्विस्तिर्यमेब्रूहि श्रोतुं कौतूहलं हि मे अव्यक्ताद्या पृथिव्यन्ता अण्डा च बहिरुद्भवाः ते सर्वे प्राकृता प्रोक्तास्तेषां ज्ञानाद्विमुच्यते ब्रह्माण्डं विकृतं ज्ञेयं ब्रह्माण्डान्धःकगेश्वर या सृष्टिरुच्यते सद्भिः सैवोक्ता विकृतेति च सृष्टिश्च प्रलयश्चैव संसारो भक्तिरेव च भूरादयस्तथा अनाद्यनन्दकालीना सर्वदैकप्रकारकाः जगत्प्रवाकः सत्योऽयम् नैव मिथ्या कथञ्चन यत्त्वेदधन्यधा भ्रूयुः सर्वभन्दारकेव च जगत्प्रवाहः सत्योऽयं हरिसेवेदि साध सत्यं सत्यं पुनः सत्यमुद्धत्य भुजमुत्यदे वेदाच्छास्त्रं परं नास्ति न देव केशवात् परः सर्वोत्कृष्टं केशवं च विहायन्यमुपासदे तेषामन्धं तमो ज्ञेयं पितॄणां गरुणामपि इदानीं शृणुपक्षीन्द्रवैकृतं सर्गमुत्तमं सम्यग् जानादि यो लोके सयादि परमं पदम् इति श्रीगरुडे महापुराणे धर्मकाण्डे प्रेतकल्पे ब्रह्माण्डादिवैकृतैकदेशप्राकृतसृष्टिनिरूपणं नाम दशमोऽध्यायः ओम् अध्यायम् इलेवन् श्रीकृष्ण उवाच पुरुषाख्यो हरित्साक्षाद्भगवान् पुरुषोत्तमः शिष्ये त्वण्डोदकविष्णुर्नृणां साहस्रवत्सरं लक्ष्मीच्छोदकरूपेण चय्यारूपेण भोण्डजा विद्यातरङ्गरूपेण वायुरूपेण भोण्डच तमोरूपेण सैवासीन्नान्यदासीत् कथञ्चन आसीद्गर्भोतके चैव नान्यदासीत्कथञ्चन लक्ष्मीस्तुष्टावच हरिं गर्भोदे पक्षिसत्तमलक्ष्मीधराभ्यां रूपाभ्याम् प्रकृतिर्हरिणा तथा स्वेदश्रुतिस्वरूपेण स्तौदि गर्भोदके हरिं नारायण नमस्तेस्तु शृणु विज्ञापनं मम अजां जहि महाभागयोग्यानां मुक्तिमावह अजादुप्रकृति प्रोक्ता चापरा प्रकृति परा शतदो वरादुब्रह्माणि ब्रह्मपत्नी वरा न उमाशज्यवरा तस्या अवराः सम्प्रकीर्तिताः एतासां नैव प्रार्थयामः सदा हरे अस्ति प्रदि नृषु ब्रह्म प्रकृति व्यवस्थि येकासाराज शब्दिधायि द्वितीयादुतमोह्या अज शिधायिका अतयवे ज्येष्ठे ये लोके प्रकर्ति सुख दुख प्रद सुखदुःखप्रदा चैव अपरा दुःखदैवतो मोक्षाधिकारिणामेव ज्ञानैश्वर्यादयो गणाः तेषामाच्छाधिका हो का तमोङ्का सा परा प्रकृतिर्ेया परमा चाधिका स्मृता एवं सा होका तमोङ्कादुप्रकीर्तिदा जीववर्गेष्वेव खगः ब्रह्मादेर्नास्ति सा क्वचिद पिशाचवत्समुद्दिष्टा जीव सेिण प्रेरिकुतोद्यो स्वह्या सुखात्मका त्र विष्णो महागसगुणाचातकोिद परमाच्चा दुष्टा व्यामच्य महाप्रभो मोक्षं देहि महादेवत्वद्भक्तानां महाप्रभो परमाचादिकाह्यस्मान् नित्यसंसारिणो यदः अद एव च नित्यत्वात् अस्मा तदपसारणं कुरुदेवमहाभाग इति विज्ञायदा मम एवं स्तुतो हरिकृष्णो सुप्रबुद्धोऽपि सर्वदा उद्व उद्बुद्धवन्महाविष्णुरभूद्यज्ञपरीक्षया तस्य नाभेरभूत्पद्मं सौवर्णं भुवनाश्रयं तत्प्राकृतं च विज्ञेयं भूदेवी त्वभिमानिनी अनन्दसूर्यवच्चैव प्रकाशकरमी त्रिदं चिदानन्दमयो विष्णुस्तस्माद्भिन्नो न संशयः विष्णोः स्वरूपभूतं च ये विजानन्दिते नराः ते यान् दिह्यधरं तद्धा तत्सङ्गिसङ्गिनः किरीडादिगवच्चैव न्यादव्यम् च खगेश्वर किरीडाद्या अपि हरे द्विधा सन्दिनसंशयः स्वरूपा ह्यस्वरूपाश्च स्वस्वरूपनिदर्शने गृहीता यदि विज्ञेया न सर्वलोकविधायकं प्रलये मुक्तिहीनश्च सुप्त इत्युच्यते बुधः तस्य समिवस्त्रिवं च नज्ञादव्याखगेश्वर प्रलयोऽपि महाभागब्रह्मवायवोर्न चास्तिः वृत्तिरूपं परं ज्ञानं पाद्यार्घ्यं नात्रसंशयः संशयः इन्द्रियाणामुपरधिः सुप्तिरित्युच्यते बुधैः च पासा ब्रह्मवायवोश्च पासाग्निवस्तवं पासाग। स्यात्खगेश्वर कथं तर्हि तयोर्वरुदेह्यविलत्यत्वमुच्यते तस्मात् तद्वास्तव नास्ति ब्रह्मवायो खगेश्वर स्वप्नावस्थाया सदृशी ह्यवस्था सुप्तिसञ्का ब्रह्मण्यमुख्यया वृत्त्या ह्यस्तीत्येवं निबोध मे अदो न वास्तवमिदमङ्गीकार्यं खगेश्वर वास्तवं ये नित्यं धनं तपः श्रीगरुड उवाच सुप्तित्वज्ञानकार्यत्वात् सुप्तिर्नास्तीत्युदीरिदा यदा हि कारणम् चास्ति तदा कार्यमिति प्रभो इत्यभिप्राय गर्भेण समाधास्यते यदि तर्हि तस्य महाभाग कथम् ब्रूहि भयाधिकम् भयादिकं ह्यस्तु नाम का वास्माकं क्षतिर्भवेद् एवमुक्तस्तु वा गोविन्दो ब्रवीतत्रापि कारणम् भयं त्वज्ञानकार्यम् स्यात् कार्याकरणमत्र हि प्रीयते मत्वा ब्रह्म तस्मात् सुप्तिश्च तत्र अज्ञादिकं यदि ब्रह्म तस्य न स्यात् कथञ्चन कथं सुखी प्रदृश्येदन कथञ्चित् करिष्यति वा मुक्तिपर्यन्तं ज्ञानव्यक्तिर्वदस्वमे यद्यज्ञानं तस्य सत्यं न स्यात्तर्हि महाप्रभो अत्यादरात् कथं ब्रह्मं श्रवणं गुरुदेवद इति तस्य वच श्रुत्वा कृष्णो वचनमब्रवीत् भयं च वास्तवं तस्य न जानीहि महामदे दृश्यते मद्भयं तस्य हरिप्रीत्यर्थमेव च भयाकामवदिवानमुवास्तवमीधितं प्राप्तप्राप्तलेशस्त तस्य नास्ति खेश्वर दुःखाज्ञानादिगं किञ्चित् कथं तस्मिन् भविष्यति विष्णोरचनानुसारेण भयानुः करोत्यसौ तेन प्रीणादिजहरितस्य नास्त्यत्र संशयः सददं ब्रह्मा न चिन्त्या कदाचिद् दृश्यते ब्रह्म दुःखी न च खगेश्वर यद्ब्रह्म च जानीया धरि प्रीत्यर्थमेव च दुःखिव ब्रह्मा आज्ञानां मोहनाय च योग्यतामनधिक्रम्य यावज्ञानं च ब्रह्मणस्तावदेवास्ति नात्र कार्या विचारणा ज्ञानस्य व्यक्तता नाम विद्यमानस्य चादराद ज्ञानस्यासादनं चैव ज्ञानव्यक्तिरिति स्मृता अधो ज्ञानादिकं नास्ति ब्रह्मणः पद्माद्धिरण्मया जादो ब्रह्मादु चतुरानः सर्वदालोचनायुक्तस्तेन स्वालोचनं कृतम् अज्ञानां मोहनार्थाय हरिप्रीत्यर्थमेव च सङ्कल्पोऽपि तथैवस्ति न ह्यज्ञानात् कृतस्तथा मां सृष्टवानत्र यदि ह्यालोच्य सप्रभुः तं विचारयितुं ब्रह्मा पद्मनाडीम्बिवेशः इति श्रीगारुडे महापुराणे धर्मकाण्डे श्रीकृष्णगरुडसंवादे ज्ञानहेदो निरूपणं नाम एकादशोऽध्यायः ॐ